अथ एकषष्टितमोऽध्यायः वैशंपायन उवाच गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः सम्पूज्य च द्विजान् सर्वान् तथान्यान्विदुषो जनान् महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः श्रोतुं पात्रं च राजंस्त्वं प्राप्ये भारतीं कथां गुरोर्वक्त्र मनः प्रोत्साहतीव मे शृणु भेदः कुरु पाण्डवयोरभूत् राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च यथा च युद्धमभवत् पृथिवीक्षयकारकम् तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभा मृते पितरिते वीरा वनादेत्य स्वमन्दिरम् न चिरादेव विद्वांसो वेदे धनुषिता भवन् तांस्तथा सत्त्ववीर्यौजः सम्पन्नान् पौरसम्मतान्नामृष्यन्कुरवो दृष्ट्वा ततो दुर्योधनः क्रूरः कर्णश्च सहसौ पाण्डवान् विविधोपायैः राज्यहेतोरपीडयत् ददावथ विषम् पापो भीमाय धृतराष्ट्रजः सहान्येन वृकोदरः प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरं तो येषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् यदा विबुद्धः कौन्तेयः तदा सञ्च्छिद्य बन्धनम् उदतिष्ठन्महाबाहुः भीमसेनो गतव्यथः आशीर्विशैः कृष्णसर्पैः सुप्तं चैनमदंशयत् सर्वेष्वेवाङ्गदेशेषु न त्रुहा तेषाम् तु विप्रकारेषु तेषु तेषु महामतिः मोक्षणे प्रतिकारे विदुरो वहितो वहितोऽभवत् स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः पाण्डवानाम् तथा नित्यम् विदुरोऽपि सुखावहः यदा विविधोपायैः संवृतैर्विव्रतैरपि नाशकद्विनिहन्तुम् तान् दैवभाव्यर्थरक्षितान् ततः सम्मन्त्र्यसचिवैः वृषदुःशासनादिभिः धृतराष्ट्रमनुज्ञाप्य जातु सङ्गृहमादिशत् सुतप्रियै शीतान् राजा पाण्डवानम्बिका सुतः ततो विवासयामास राज्यभोग बुभुक्षया ते प्रातिष्ठन्तसहिता नगरान्नागसाह्वयात् प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषाम् महात्मनाम् तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् ततः सम्प्राप्य कौन्तेय नगरम् वारणावतम् न्यवसन्त महात्मानो मात्रा सह परन्तपाः धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे संवत्सरमतन्द्रिताः सुरुङ्गाम् विदुरेण प्रचोदिताः आदिप्यजातु शंवेश्म दग्ध्वा पुरोचनं पुरोचनम् प्राद्रवन् भयसंविघ्ना मात्रा सह परन्तपाः ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे हत्वा च तं राक्षसेन्द्रम् भीतास्समवबोधनात् निशिसम्प्राद्रवन् पार्थ धार्तराष्ट्रभयार्दिताः प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः वेदाध्ययनसम्पन्नाः ते भवन् ब्रह्मचारिणः